ध्यायामो धामयी यद्धाङ्गविलोगि भगवती वात्सल्याला मृदानन्दात्मी ॐ गणां कवीनामुपमश्रमम् चेष्टरा one shubri om ganesha namaha krno devi sahaswati shree ganadeepti ya ma vidya ko agni hi so shall be practiced uh, Together once from beginning till yes. Okay everybody ready? ुगेदर्न्स् फ्रोम् बिगिनिङ्ग् टिल्केबडि रेडि ओके रेडि टु त्रि ओर सदा आहारप्रतिं जा अस्मैवाय आगा ह्य विश्वादि yasya yasya ayam rutam ugya mrakyam akamini devaaya avira agide mama yaprara asya tu bhumi va mithara rajya rajata jagatumava yayi खि खगे बहि देवाहु यस्येमागोशो य मा सुखस्मयी देवा येवायम येन यौ रुक्री च येन स्वास् ye nalanyanaakkaha darekyontairedu nanaakkalmai katti evayaha visahaa अवासामाने यायुरीतो विभाति मयिकाय विसहसाय Everybody is okay with this? Yeah. yeah. So do you want to practice individually from uh, beginning to the sixth? Sure. Yes. Then let's, yeah, let's do it once. Uh, uh, so who wants to go first? I can go. Okay, go ahead, Sura. Om Hiranyagarbha Samavart तताग्रे ए भूतस्य जातः पितरेक आसीत् पतिरेक आसीत् सधाद आधारी सदा आ, सदा आधारपृथिवीम् ज्यामुत्मुते माम् कस्मै देवाय हविषा आविदेम य सा आत्मदा बालदा यस्य विश्वा उपासा ते प्रशिष्टम् यस्य देवाः यस्य छायामृतम् यस्या कस्मै ए देवाय हविषा आविधेमा यः प्रा आणतो माहि त्वैक इद्राजगातो बभूव य ईशे ए अस्य द्विपदश्चतुष्पद चतुष्पदः मयि ए देवाय हविषा आविधेमा यस्येमे हिमवन्तो महित्वा यस्या समुद्रम् रसया आसहाः यस्येमाः प्रदिशो यस्या बाहू कस्मै ए देवा यहविषा आविधेमा येन द्यौरुग्रा कृ च दृ दृह् येन स्वस्तभितम् येन नाकाः यो अन्तरीक्षेके प्रजासो विमानः कस्मै ए देवाय हविष आविधेम यम् क्रन्दासि अवासात्तस्तभानि अभ्यैक्षे एताम् मना सा रेजामाने यत्राधिसूर उदीत उदितो भाति कस्मै ए विम वेरि गुड् टु गो नेक्स्ट् ऐ विल् गो यम् हिरण्यगर्भसमवर्ददाग्रे भूतस्य जातः पतिरेक आसीत् सदा आभारः पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विदेम य आत्मधा बलदायस्य विश्व उपास विश्व विश्व इस् आस् बि लैक् आल्मोस्ट् विश्व बट् इन् बिट्वीन् विश्व अण्ड् विश्व सो यस्य विश्व उपासते प्रशिष्यम् यस्य देवाः यस्य चायामृतम् यस्य मृत्युक्कस्मै मृत्युः कस्मै स्मै देवाय हविषा निशतो यः प्रा आणतो निनिषतो महि त्वै क इद्राजा जगतो बभूव य ईय ईशे अस्य द्विपदश्चतुष्पद चतुष्पधः कस्मै देवाय हविषा विधेम यस्ये मे हिमवन्तो महित्वा रसा रसया आ सहाहुः यस्येमाः प्रदिशो यस्य बाहु कस्मै देवाय हविषा विधेम येन द्यौरुद्रापृ पृथिवी पृथिवी tv ch pruti vi chat prativi he cha. is short vi is long okay. e nadyo rugra vi. Ye, ye nadyo rugra pruti vi pr, pr ya is almost like a go up and then it's like almost long so a mm -hmm. e nadyo rugra pruti vi येन द्यौरुद्रा च करे च दृहा द्रुला दृळा येन स्वीतं येन नाकः येन नाकः यो अन्तरीक्षे रजसो विमानः कस्मै देवाय हविषा विधेम यङ् यं, यङ्क्रन्दसि अवसातस्तभाे अव्यक्ष्ये एतां मनसा रेजमाने यत्राभि सूर उदितो पिभाति कस्मै देवाय हविषा आविधेम वेरि गुड् नेक्स्ट् rural tumor so you have to one of you have to do one first so i can do go. okay good um kiren yakhas <laughs> samavartata gre e bhutasya jata patireka asi sada athara पृथिवीं यामुते मां कस्मै एवाय हविषाहाविथेमा य आत्मदा बलदायस्य विश्वा उपासाद्मृतं यस्य मृत्युकस्मै देवाय विषायुमा य प्रा आणतो निमि निमिषतो निमिषतो निमिषतो मा हित्रैका इद्राजा जगज्जगातो बभुवा य ईशे ए अस्य े ई देवाया हविषा विथेमा यस्येमेमव अन्तो महित्वा यस्या सा मुत्रम् रसाः रसया रसया हा हा रसया, हु। रसया हु। हुः यस्येमा प्रतिशो यस्या बाहु कस्मै देवाय हविषाः विधेमा येन प्रौरुग्रा पृथिवी दृहायेन स्वावस्तभिदम् येन स्वस्तभिधम् स्वस्तभितं येन नागाः यो अन्धक्षे रजसो विमानः कस्मै एवाय हविषाः विधेमा यं अवासा अवसातस्तभाे अक्षेक्षे एताम् मनसा रजमाने ये सूरा उदी, सूरा, उदी, यत्राधी तोधिर उदितो विभाधि कस्मै विधेमा वेरि गुड् इट् इस् हबिषा ओके नो हा हविषा आदिषामा गुड् ओन्लिक्सेट् हविषा आदि विधे गुड् ओके जि वाक्स्ट् ॐ हिरण्यगर्भवर्धदाग्रे रोदस्या ोदस्य जादस्पतिरेका आसीद सदा धारपृथि॒वीं यामुदे माम कस्मै देवा मा या हविष आ विधेमा या आत्मदा बलदा यस्य विश्वा उपा ते प्रशिशं यस्य देवाः यस्य देवा यस्य छायामृतं यस्य मृत्यक्स्मै देवायस्मै देवाय कस्मै देवाय कविषा विधेमा यः प्राण प्राणतो निमिषतो महित्वय इद्रजा जगदो बभुवा बभूव बभूव बभुवा य ईशे अस्य दिवदच दुष्पत् चतुष्पधः कस्मै च दुष्पधः कस्मै कस्मै कस्मै देवाया हविषा आविधेमा यस्य मामवन्तो हिमवन्तो हिमवन्तो महित्वा यस्य समुद्रम् जषया सहाहुः यस्येमाः प्रदिशो यस्य बाहु, बाहु कस्मै बाहु बाहुकस्मै देवाया कविषा विधेमा येन द्यौजुग्रा पृथिवीवी पृथिवी पृथिवी च येन स्वस्तविदम् येन नाका यो अन्धिक् अन्धजिक्षे जजसो विमानः कस्मै देवाया हविषा विधेमा यन्क्रन्दसि क्रन्दासिक्रन्दासिन्क्रन्दासि अवसास्त अभ्यैक्षे ताम् मनसाने येजमानि यत्राधि सूर्य उदीतो विभाति कस्मै devaya avishabithema good good all right everybody is done right shall we try the next uh, paragraph yes yeah -oh apohayad brahatir vishwa mayan apohayad -oh -ha ृहति विश्वमायन् आपो हयत् बृहति विश्वमायन् गर्भं ददा आना गर्भं ददा दददाना गर्भं ददा दददाना JANAYAM TIRAGNIM JANAYAM, Janayam TIRAGNIM Are we OK with all the words? JANAYAM yeah. TIRAGNIM Yeah, go ahead. Question? JANAYAM TIRAGNIM JANAYAM TIRAGNIM uh janayam ay two times okay janayanti ragnim janayam janayanti ragnim haribidis okay with all the words okay let's say the whole sentence आपो ह यद्बृहतिर्विश्वमायन् गर्भम् ददा आना जनयन्तिरग्निम् आपयद्बृहतिर्विश्वमायन् गर्भम् ददानाजनयन्तिरम् आपो ृहति दधा के ओके लैन् तदो देवानाम् ततो देवानाम् देवाना, समवर्तता सुरेखः कस्मै देवाय हविषा आविधेम समावर्तता कस्मै देवाय हविष विषेमा समावरतः कस्मै देवाय हविषा विषयेमा <स्था> I went in faster because we already done Kasmai, Deva, Avishaa, Dema is all been saying all the time, so there's no reason to do right. that many times, so I just said you know, it's, uh, this, the last uh, part is always the same. Kasmai, Deva, Avishaa, Avidhema is always the same. So, everybody is okay with this uh, line? Yeah. Okay, let's do the whole line, okay? Tato O Deva, Nam, Sama, Vart, Tata, Sure, Ghaf, कस्मै देवाय अविशा आदिधेम ततो ओ देवानाम् समासुरेकः कस्मै देवाय देवाय हविषम आविधेम ओके ओके टु द टु लैन्स् टुगेदर् आपो हयब्रपथिर्विश्वमायन् गर्भम् ददा न जनयन्तिरग्निम् ततो ओ देवानां तमवर्तता दुरेखः कस्मै देवाय अविशा आविधेम आपो हयद्दृहतिर् विश्वमायम् गृह्म् दधानाज्रयन्ति ततो देवानामेव देवाय हविष विदेवा हो हयद्यहतिर्विश्वयन्द्रतारम् तत्सतो देवा स्वभावमयिमयी सेवायशा विधेम Everybody is okay with these two lines? Yeah. Yeah. Okay, let's try the eighth paragraph. Yashthida yes. po yes. omahina oh, oh, Yashthida po omahina oh, oh, oh, Yashthida po omahina Paryapashya daksham parya pasyat daksham parya pasyat daksham, daksham. dada anajanayam teer yajnam dada anajanayam teer yajnam dada anajanayam teer yajnam जनयन्तीर्ट् एवरियर् योल् यश्चितापो महिना पर्यपश्यदक्षम् दधा आना जनयन्तेर्यज्ञम् पश्यदाम् महिमा और्हिना महिना यश्चिदा पो ओ महिना पर्यपश्य दक्षम् दधा okay? आना okay, It... Yep. यो देवेष्वधि देव एक आसीत् यो देवेष्वधि देव एक आसीत् आसीत् ेव एक आसीत् ओके नेक्स्ट् ऐद् होल्ला यो देवेष्वधि देव एक आसीत् कस्मै देवाय हविषा आविधेम यो देवेष्वधि देव एक आसीत् कस्मै देवाय हविषा आविधेमा यो देवे तर्बि ओके दे सो ले ट्रै दि होल्ड् टु लैन्स् टुगेदर् लास्ट् टु लैन्स् यश्चिता भो महिना पर्यवश्य दक्षम् दधा आना जनयन्तीर्यज्ञम् यो देवेश्वधी देव एक आसीत् कस्मै देवाय अविशा विधेम यश्चिदाो महिना तथा देव एक आसीत् तस्मै विधेम यश्चिदा पुो Mahila parya pasyad taksham dada anayam janayanti yagnam Yodheveswadhi deva lekaasit kasmai ni deva yavishadhi dhema Everybody's okay with this? गर्भं तदा आना जनयन्तिरग्निं ततो ओ देवानां समवर्तसा सुरेख कस्मै देवाय अविषा आविधेम यश्चिदावो महिना पर्यपश्यद् दक्षम् दधा आन जनयन्तीर्यज्ञम् यो देवेष्वधि देव एक आसीत् कस्मै देवाय अविषा आविधेम आपो पो ओर तो ओ देवाना समावर्तसा गुरेकः कस्मै सेवाय हरिषाविदेमो मलिना पर्यपश्य तक्षं ददा तथा न जायन्ति यो देवेश्व हेवा आवय बृहतिर्विश्वयम् गर्भम् ददाशयन्ति अग्निम् ो देवानाम् समावर्तसाकस्मै देवाय विशाख यश्चिदा महिला पर्यभाजुता तथा नायन्ती यै यज्ञम् यो देष्वध्धी तेव एकासी कस्माई एदेवाया अविशा आविध्रेवाः आविध्रेवाः Everybody is okay? Is this to pour out two paragraphs? Yep. So who wants to try it on their own? I can go. Okay, go ahead. पो ओ हयद्बृहतीर्बृहतिर्बृहतिर् बृ बृहतीर्विश्वमायम् गर्भं ददा आना जनयन्तीरग्निम् ततो देवानाम् समवर्तता सुरेखः तस्मै देवाय हविषा विधेम यश्चिदापो महिना पर्यपश्यद् पर्यपश्यद् पर्यपश्यद् पर्यपश्यद् पर्यपश्यद् इप् लोङ्ग पर्यपश्यद् पर्यपश्यद्दक्षम् ददा आना जनयन्ति यज्ञम्गुड् द्यो देवेश्व एक आसीत् कस्मै देवाय हविषा विभेम who wants to go next hello okay go ahead sura apo <laughs> ohayadri katir vishwamayan garbham dadana janayan tiragnim tato devanam samavartta tasureh kasmai devaya हविषा आविधेम यश्चिदापो ओ महिना पर्यपश्यद्दक्षम् दधः आना जनयन्तिर्यज्ञम् यो देवेष्वधीरेव एक आसीत् वेरि गुड् नेक्स्ट्रै यस् गो हेड् आपो लोङ्ग् राट् ्रहतीर आपोह यद् ब्रहतीर्श्व इस् वीर्धा बट नास् आपो ह यद्ब्र हतीर् विश्वमायन् आपोह यद्ब्रहतीर् विश्वमायन् गर्भं दधाना जनयन्दीर् जनय तीरग्निं जनय तीर् यीरग्निं देवानां समावर्तदा सूर्ये कः कस्मै देवाय हविष विधेमा यच्छिदाभो महिना पद्यपश्य पर्यपस्य पर्यप्यनयज्ञं तीरसलं जनयी जनय तीर् यज्ञम् जनय तीरयज्ञम् देवेष्वधि देव एक आसीत् कस्मै देवाय हविषा विधेमूङ्ग् ओके आहोदी ृहतिर्विश्वमायङ्गनयं पीरत्निं ततो ओ देवानां समावर्तता सुरेकस्मै देवाय हविषा विधेमा यच्चिदाव महिना पर्यपश्यत् पर्यपश्यर्यपश्यर्यपश्यक्षं दधाना दधा आना दधाना दक्षं दधा आना दधा आना दक्षं दधा आना यो देवे श्रुति देव एक आसीत् मानो ॐ हिंसि जनिता ीथिव्या यः प्रीथिव्या यः पीथिव्या यो वादिवम् यो वादिवम् योगादिवं सत्यधर् सत्यध अर्मा जान सत्यधान सत्यधर्म जान इसन्ति सत्यधर्मा इसन्टित् द आर् कमिङ्ग् वित् द सत्यध अर्मा No, I thought it was, the... I, think, I thought it was satya dharma. I thought it should, it's it on top of the dha, so I think it's the a that should be a two times. Satya dharma. Uh, okay, I heard on JR, GRDs dharma. Yeah, Maybe I could have heard that two r sound, dharma. Because then you should have put on top of the r. I think they have put on top of the, uh, here, that's the, uh, Do one thing, let's okay. listen to something, okay? okay. Let me just uh, quickly check since now that we can have the doubt. No, you know better because I No, no, I don't know if this is right because <laughs> this is not okay. okay. <laughs> <laughs> I'm just uh, as good as you guys are, so uh, mm -hmm. let me just check here quickly, okay? Okay. Uh, mm -hmm. So, it's at 4-0-1. Go to the fourth minute. Yeah, okay. Hold on, hold on. I, I. widehat der ma yeah der okay okay me let me, let me do one more thing okay okay satya dharma it is correct that yeah. that what you guys said are right okay okay so satya dharma is uh, the, the, the the sign they put on adbodha is not correct it should be on top of the okay okay so satya dharma nyajana mm -hmm. satya dharma nyajana मानो हिंसे जनितायः पृथिव्यानो हिंसी जनितायति मान हिंसी जनिता यः पृथि पृथिव्या yo vadivam satya dharma ya jana yo vadivam satya dharma ma ya jana yo vadivam satya dharma ma ya jana let's say the whole everybody's okay with the words yeah so let's say the whole line मान हिंसी जनितायः पृथिव्या यो वादिवम् सत्यधर्माजान मा नो हिंसी जनिताय पृथिव्या यो वादिवम् सत्यधर्मजान नो हिन्दी जनितामय वृथिव्या यो वादिवं वालिवं सत्यत ओके मणि यश्चाबश्चन्द्रा यश्चापश्चन्द्रा Is that okay? Everything else after जान ओके एवीथिङ्ग् एफलि वी लर्न अस् के okay. यश्चापश्चन्द्रा yes, बृहदिर्जान कस्मै देवाय हविषाः विधेम यश्चापश्चन्द्रा yes, बृहदिर्जान कस्मै देवाय हविषाः न्द्रास्मै देवाय विशा विधेमा के टु लैन्स् टुगेदर् मानो ओ हिंसे जनिता यः पृथिव्या यो वादिवम् सत्यधर्माजान मान्यश्चापश्चन्द्राबृहदीर्जान कस्मै देवाय हविषा आविधेम मानोताय वादिव यश्चापस्कस्मैविषा आविधेमानो मानो हिंसी जनिताय पृथिव्या यो वादिवम् चन्द्रा देवाय विषा विधेमा ते बिड् इस् ओके वित् दीस् टु लैन्स् सिरिस् लन् द लैक् नेक्स्ट् टु ए विल् शान् दोस् टु टुगेदर् ओके प्रजा आपदे प्रजा प्रजा नत्वदेतान्यो न त्वदेतान्यो न त्वदितान्यो विश्वा विश्वाजातानि विश्वाजातानि भुवा भुवान् प्रजा आपते नत्वेदादन्यत्वेतान्यो विश्वा आजातानि परिता बभूव प्रजापतेनन्यो विश्वादकानि परिताबूव प्रजा यत्का आमास्ते, यत्का आमास्ते, जुहुमस्तन्नोमस्तो जुमस्तन्नो अस्तु अस्तु वयं स्या पतयोरयीणाम् ओके विद् वर्ड्स् ओके लिस्ट् एतद् होर् नैन् यत्का आमास्ते जुहुमस्तन्नो अस्तु वयं स्या आम पतयो रयीणा यत्कामास्ते जुहुमश्चीणा रयीणा यत्क यत्कामास्ते जुहुमस्तन्नो अस्तु वयं यस्यामपतायो रयीणा लैन् इस् ओके लेट्स् टुगेदर् टु लैन्स् टुगेदर् प्रजा आपदे न त्वेदाज्ञन्यो विश्वा आ जातानि अस्तु वयं प्रजापते न स्वन्ते यो विश्वा जातारिपरिता भूव यत्का आमास्ते जुमस्तं नो अस्तु वयं स्यामपतायो वयीणा PRAJAAA PATE NATVATE TANYANYO VISHWAAA JHADANI PARITA BARBHUVA YADKA AAMATTE JUHMAS TANNO AS TU VAYAM SIYA VAPATMASAYO RAINAM Everybody's okay with these two lines? I have to drop out, I have a... Okay, okay. no problem, thank you. Thank you. Yeah. Okay. Sure. Bye. okay, so let's try the last two paragraphs together, okay? Okay, so, let's try to see whether we can wrap it up, okay? Okay. Mano oh him se janita ya prithivya Yo vadivam satya dharma jajana यश्चापश्चन्द्रा बृहदिर्जजाना कस्मै देवाय हविषा विधेमा प्रजा आपदेन स्वेतान्यो विश्वा जातानि परिता बभूव यत्का मास्ते जुहुमस्तन्नो अस्तु वयं स्या आमपथायो रयीणा मानो हिंसीजनितायः पृथिव्या यो वा दिवम् दिवम् सत्यधर्माजान जा यश्चाबश्च चन्द्रा कस्मै जजानस्मै देवाय हविषा विधेम प्रजापतेन त्वदेतान्यो विश्वा आ जातानि परिताभूव यत्कामस्ते जुमास यस्ति यत्का आ मास्ते जुहुमस्सन्नो अस्तु वयं स्या आम मानो मानो हिंसीज्जनिताय पृथिव्या वादिवं वा दिवम् सत्यधर्मा जजान जा यश्चापश्चन्द्रा ब्रूहति जजानकस्मै देवाय हविषा विधेम प्रजा आपतेन त्वदेतान्यो विश्वा आ जातानि परिता यत्का आ मास्थेजुमस्तन्नो अस्तु वयं स्या everybody okay we have time to practice individually these two paragraphs quickly we are uh, two three minutes yeah. over okay yeah okay so who wants to go first i can go okay go ahead man oh him see janita yaf पृथिव्या वादिवं वा दिवं सत्यधर्मा जान यश्चापश्छन्द्रा ब्रूहति जजानकस्मै जा देवाय हविषा विधेम प्रजा आपतेन त्वदेतान्यो विश्वा आ जातानि परिताभूव यत्का आमास्थे जुहुमस्तन्नो अस्तु वयं स्या आमत्पथयोरहीमास्ट् नो हिंसृज्जनिताय पृथिव्यायो वादिवम् सज्जधर्म जना यच्छन्द्राभदान कस्मै देवाय हविषा आविधेमा प्रजा आपते न स्तु देदान्यो विश्वा जातानि परिता बभूव यत्का आमास्ते अस्तु वयं श्यामपदयो जैनाम् वेरि गुड् नेक्स्ट् गो ओके मानो हिंसिनिताय पृथिव्यायो वा दिवम् सत्यथर्मा च जाना य चान कस्मै हविषा आ विथेमा प्रजा आपतेत तद्वेतान्यो विश्वा यत्का का आमास्ते अस्तु वयं ya ama patayorinam clever scribbled that right okay good so uh, uh, we are few minutes over so about that so next week i'm travelling so we won't have any class next week so we'll uh, meet two weeks from today okay is that uh, apples to be third day of the monday okay I don't know whether it's the third one, let me just check with uh, it. No, next week? Yes, next week will be the third week. So, um, first uh, Monday was first, right? First, uh, this yes, is the 8th, 15th, eighth. next will be the third Monday, so essentially that should be our uh, practice, for Uthram. Uthram so uh, uh, then if you can, can practice on your own, And then uh, a week after that, then you can practice this, uh, what we learn, okay? Okay so 22nd we will take class after yeah, 2 second try okay okay okay alright let's do three logas samasthans shop for the day ॐ लोकाः लोकस्ताः स्थानो भवन्तु लोकाः स्थानो भवन्तु लोकाः ताः नो भवन्ती ॐ गुरुभ्यो नमः हरिः ओम्